विदुर उवाच नाभिनन्दामि ते राजन् व्यवसायमिमम् प्रभो पुत्रैर्भेदो यथा न स्याद्यूतहेतोस्तथा कुरु धृतराष्ट्र उवाच क्षत्तः पुत्रेषु पुत्रैर्मे कलहो न भविष्यति यदि देवाः प्रसादम् नः करिष्यन्ति न संशयः अशुभम् वाशुभम् वा पिहितं वा यदि वाहितम् प्रवर्तताम् सुहृद्यूतम् दिष्टमेतन्न संशयः मयि सन्निहिते द्रोणे भीष्मे त्वयि च भारत अनयोदैव विहितो न कथञ्चित् भविष्यति गच्छ त्वम् रथमास्थाय हयैर्वातसमैर्जवे खाण्डवप्रस्थमद्यैव समानयुधिष्ठिरम् न वाच्यो व्यवसायो मे विदुरैतत् ब्रवीमिते दैवमेव परं मन्ये येनैतदुपपद्यते इत्युक्तो विदुरो विदुरोधीमान् नेदमस्तीति चिन्तयन् आपगेयम् महाप्राज्ञमभ्यगच्छत् सुदुःखितः इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि दुर्योधनसन्तापे एकोनपञ्चाशत्तमोऽध्यायः